अथ त्रयोदशोऽध्यायः स्वदेशप्रत्यागमनं द्वितीयो भागः आत्मशक्तिं दृढीकर्तुं जनान् स्वामी समाह्वयत् तथैव दृढविश्वासो भवेदात्मनि सर्वदा देशीयचेतनां स्वस्य कोऽपि नैव परित्यजेत् एवं क्रियेत चेत्तस्य नाशो भवति निश्चितं भारतस्य प्रभावोऽस्ति धार्मिके जीवने खलु परित्यजेतदेशे देशो निर्वापितो भवेत् दैमात्मनि विश्वासम् अकुर्म पूर्वमेव तु परिवर्तयितुं सत्यमेतं न हि च सत्वरम् आध्यात्मिकैक्यं शकलप्रपञ्चस्य भवत्यपि तदेवानस्वरं सत्यं तदस्ति मयि च त्वयि नाहं तं द्वौ स्वरूपात् अस्मिन् तत्त्वे समूहस्य सदाचारोऽप्यधिष्ठितः प्राधान्यं दयितुबादस्य तेन नैव लघुकृतं प्रेमाह्लादाशिष सर्वं तस्मिन्नस्तीति सम्मतं तादृशो मृदुभावस्तु भारतेन न शरीरस्य चित्तस्य लमेवात्रसारवत् अद्वैततत्त्वशास्त्रस्य बोधनेन तथाविधम् स्वांसीकरणहेतोश्च तच्छक्त्या प्रापणम् भवेत् कोटिसङ्ख्यं च देवेषु विश्वासस्तव वर्तते तय्येव कोऽपि विश्वासो न चेत् किं प्रयोजनम् अस्माकम् आत्मविश्वासराहित्येनैव केवलम् आधिपत्यं विदेशीयैस्थापितं भारतेन अधः पतनम् अस्माकं कृतम् अस्माभिरेव च धनिकैपूर्विकैर्णिस्वजनता परिपीडिता भयेयो नुकुम् आर्द्रां वित्तेषा निर्धनान् प्रति दरिद्रा नर्जातीया सन्तीति स्मर्यतां सदा ज्ञातव्यं धनिहीनैर्यदात्मा ते सपि वर्तते न्यते स तु नैवापि सः अष्टाद्यन्तविहीन स परिशुद्धश्च निश्चितम् अस्ति स सर्वशक्तिश्च तथा सर्वगतो ह्यपि वयोलिङ्गविभेदं तु विना सर्वेषु वर्तते आत्मा सदा स निराकारश्च निर्गुणः अनन्तया तस्य शक्त्या भवितुं कोऽपि शक्नुयात् बलवान् चापि गुणवान् विना यासं न संशयः उत्तिष्ठजागृहीत्वं विहाय बलहीनतां प्रख्यापनं कुरुत्वं यदि ईश्वर स्वै वर्तते त्यक्तव्यम् अस्ति देहस्य मनसस्तथा यथार्थं न हि तत्सत्यं सर्वदा बलदायकम् तदस्ति परिशुद्धिश्च ज्ञानं सर्वं तदेव च वेदशास्त्रेषु केवलं सत्यमस्ति तत् प्रचारार्थं स्रष्टव्यं स्थापनं खलु युवेभ्य यत्र दातव्यं तदुद्दिश्यानुशासनम् आत्मार्थताबलं विर्यम् इत्यादिगुणसञ्चयः तेषु सर्वेषु युवसु वर्तितव्योऽस्ति निश्चितम् देशे तथा विदेशेषु कुर्युस्ते च प्रचारणं भाविपद्धतिरित्येवं स्वामिना विशदीकृतम् ईश्वरं दृष्टवान् स्वामी मर्तेषु सकलेष्वपि तेषाम् आराधनं नूनं जगदीश्वरपूजनम् अस्माभिः प्रथमत्वेन विराद्वां विरद्दूजुजाभिधीयताम् अखिला अन्नदेवास्तु निद्रामग्ना भवन्ति च आसीदुत्तेजजनकं स्वामिवर्यस्य भाषणम् आत्मा भारतदेशस्य तस्य शब्दे स्वबल तत् विवेकानन्दवर्यस्य प्रेरणात्मकभाषणं चेतत्सु भारतीयानां कम्पनं कृतवत् खलु अधिकृत्यात्मनशक्तिं बोधवन्तो भवस्य ते सुप्तदेशीयबोधस्य जातं जागरणं तथा एवं सद्यपि तत्त्वं तत्तात्पर्यं राजनैतिककर्मसु विवेकानन्दवर्यस्य चित्तेनैव कदप्यभूत् सत्यं दैवतमित्येतद्विषयद्वयं द्वयमेव च राजनीतिस्वरूपेण वर्तते भुवि सोऽवदत् स्वतन्त्रता भारतस्य वाञ्छिता तेन निश्चितं लक्षितं तेन मनुकूलस्य सेवनम् अमेरिकाप्रदेशास् दिने श्वेते सुलब्धवान् पत्राणि यत्र तत्रत्यवृत्तान्ता लिखिता शपि शारदानन्दवर्यस्य नेतृत्वे चलति स्म च तत्कर्म स्वामिनारब्धं यत्तु लोकशिवङ्करं विश्रमेण विना स्वामिना, स्वामिना दक्षिणापथे कृतं निरन्तरं येन परिक्लान्तो बभूवत् अनुसृत्य स्वामित्राणाम् उपदेशमिदं प्रति विश्रान्त्यरसं च कलकत्तां गन्तुं निश्चितवानपि